अ॒श्वावती यगोमतीर्न उ॒षासो॑ वी॒रवती सदमुच्छन्तु॒ भ॒द्रा घृतं दुहाना विश्वता प्रपीतायू॒यं वात स्व॒स्तिभिः सदाना अश्वाव॑ती यगोमतीर्न उ॒षासो॑ वीरवती सद॑मुच्छन्तु भद्रा घृतं दुहाना विश्वता प्रपीतायू॒यं वातस्वस्तिभिः सदाना अश्वावतीर्गः गोमातिरन्न उ॒षासो वीरवती सदमुच्छन्तु भ॒द्रा घृतं दुहाना विश्वता प्रपीता यू॒यं वात सदाना